अथ दुर्गाद्वात्रिंसन्नाममाला दुर्गा दुर्गातिसमणि दुर्गापद्यना निवारिणि दुर्गमच्छेदनि दुर्गसाधिनि दुर्गनाशिनि दुर्गतोद्धारिणि दुर्गनिहन्ते दुर्गमापहा दुर्गमज्ञानदा दुर्ग दैत्यलोकवानदा दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी दुर्गमार्गप्रदा दुर्गम् अविद्या दुर्गमाशिता दुर्गमज्ञानसंसार दुर्गमध्यानभासिने दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणि दुर्गमासुरसङ्घन्त्री दुर्गमायुतधारिणी दुर्गमाङ्गे दुर्गमता दुर्गम्या दुर्गमेश्वरे दुर्गभीमा दुर्गभामा दुर्गभा दुर्गधारिणी नामा वाम्बलिमिमां यस्तु दुर्गाया मम मानव पठे सर्वभयान्मुक्तो भविष्यति न संशयो पठे सर्वभयान्मुक्तो भविष्यति न संशयः ॐ श्री दुर्गादेव्यै नमः